मुद्गलपुराणम् खण्डम् एय्ट् धूम्रवर्णचरितम् अध्यायं तर्टि फोर् मखमासमहात्म्ये दधीजिधौम्यसंवादम् श्रीगणेशाय नमः सूद उवाच मखमासभवं चित्रं चरित्रं कथयाम्यहम् सङ्क्षेपेण मुनिश्रेष्ठशृणु सर्वार्थदायकं कलिकल्मषरूपेण मल्खेण पीडिता सुराः शरणं केशवस्यैव ययुर्विप्रेन्द्रमुख्यकैः स्तुत्वा नानाविधै स्तोत्रैर्विष्णुं धर्मप्रपालकम् कौरम कलिभव पापम तदर्थम अब्रुवन वचह देवर्षय ऊचु जय तेनो पोषण रक्षस्व शरणा कलिना पापू जनार्दन जिदा वयम पृथिवीं त्वमपि त्यक्त्वा स्थितोऽसि महाप्रभो तेषां तद्वचनं श्रुत्वा तानुवाच स्वयं हरिः मेघगम्भीरया वाच सर्वेषां पालकः प्रभुः हरिरुवाच मा भयं देवविप्राद्या कुरुदाहं न संशयः करिष्यामि भवत्कार्यं कलिं जित्वा सुदुर्जयम् एवमुक्त्वा महाविष्णुर्देवर्षीन् विससर्जः विचारमकरो चित्ते दृष्ट्वा घोरं कलेर्बलं कलिमलप्रणाशार्धं समर्धं चिन्त्यमाधवः आययौ मयूरक्षेत्रे तपोर्धं गणपेरतः मखमासं समासाद्य नानामलनिकृन्दनं गणेशपञ्चकं पूज्यं व्रतं चकारमासजं कृद भुक् गणनाथं सोऽसेवयत्यत्न संयुधः उष स्नात्वा चकार न्या चकार धुण्डिचिन्तनंढं मासव्रतं कृत्वा परिपूर्णं जनार्दनः पारणं ब्राह्मणैः सार्धं निशिनिद्रायुधो भवद स्वप्ने ददर्श विघ्नेशं धूम्रवर्णं गजाननं अश्ववाकं द्विहस्ताभ्याम् खड्गचर्मधरं हरिः स उवाच महाविष्णुं स्वभक्तम् भक्तपालकः मेघगम्भीरनादेन हर्षयन् हर्षवर्धनः श्रीगणेश उवाच नानामलप्रणाशार्थं मलमासव्रतं चरेद तदेव सुकृतं विष्णो त्वया मलमासस्य देवोहं धुण्डयित्वा विशेषदः हरामि मलसम्भूतं दुःखं पापमयं परम् अधस्त्वमीदृशो भूत्वा माम् स्मृत्वा हृदिभकृदः कलिं जेष्यसि देवेश धर्मं संस्थापयिष्यसि यवमुक्त्वा गणेशानस्तदोऽन्तर्धानमाकरोद प्रबुद्धकेशवोऽन्तं स्मृत्वा हर्षयुतो भवद प्रणम्य स मयूरेशं धृत्वा वेषं नराधिकम् अश्वगश्यामवर्णस्थो कल्किर्नाम्नामः बाहु स्मृत्वा विघ्नेश्वरं हृदि स्वाङ्गान्नाविधां सेना कल्प्य दुष्टवधेरदः कलिप्रयत्न कलिप्रयत्नसंयुधः तं जेतुं ययदेस्माभि हीनवीर्यो बभूवः ततो धर्मयुता लोकांश्चकारस जनार्दनः हत्वा दुष्टान् महाखोरानाय्यब्राह्मणोत्तमान् एवम् कृत्वा दर्दधेः सौ स्तुदो देवर्षिभिर्हरिः विकुण्ठमगमत्सद्यो हर्षनिर्भरमानसः शौनक उवाच धूम्रवर्णावताराख्यो गणेशकलिना पुरा युयुधे विजित्वास विजित्वा स कलिं कृतमधारयत कल्किर्विष्णुस्तथा दुष्टं कलिं जिज्ञेत्तथाधुना वर्णितं तत्र मुख्यं द्विविधं संशयप्रदं सूद उवाच महाघोरस्वरूपोऽयम् कलिसृष्ठः भुवा, पापसेना समायुक्तो जिज्ञे धर्मम् क्षणे क्षणे तन्नाशार्थम् विशेषेण देवा मुनिगणास्तथा नानावताररूपैस्तम् जयन्ति प्रयत्नदः गणराजस्य तदपि वरेण मूलवर्जितः कलिर्न जायदे विप्र पुनर्वृद्धिं प्रयाति सः दशवर्षवयोयुक्ता नारी गर्भवदी भवेद गृहे गृहे तथा त्रिंशत्परमायोर्भवेन्दृणाम् वर्णसङ्कररूपाश्च जनाः सर्वे धरातले सार्धैकभागो विश्वस्थो भवेद्धर्मो महामहे तदा विष्णुसुराध्यै सम्प्रार्थित कल्किरूपद्रुक जित्वा कलिं पुनः धर्मं संस्थापयेत् परं यदा वर्षा नारी गर्भवती भवेद षोडशाब्दपरं चायोर्मानवानां गृहे गृहे महाकोरं कलिम्बीक्ष्य कस्मिन् कल्पे शिवादयः तं जेतुम्न समर्थाश्च बभूवुर्विष्णुमुख्यकाः विश्वाधर्मात्ररूपेण धर्मस्तिष्टे धरातले हाकाररवयुरुक्ता जनास्तत्र सुदुःखिनः तदा विघ्नेश्वरं सर्वे गच्छन्ति स्म शरण्यकं धूम्रवर्णो गणाध्यक्षो कलिं जिज्ञे सुदुर्जयं पुनर्धर्मं समास्ताप्यकृतं तथा महामुने एवम् कलिबलं वतार्यं कुरुते स्म मलभवे मासे व्रतं कृत्वा जनार्दनः जिज्ञे कलिमलम् पूर्णं महापापौ खरूपिणम् अन्यच्छृणुमः महा विप्रमाहात्म्यं मलसम्भवं दौम्यसौम्यतपोयुक्तो बभूव परमद्युदिः स ययौ योगप्राप्त्यर्थं दधीजिं योगभारगं तं प्रणम्य विनीदात्मा संस्थितस्तेन पूजितः उवाच तं महाभागं दधीजिं मुनिवन्दितं भूत्वा धौम्यश्च तपतां वरं धौम्य उवाच तपस्सा स्वर्गभोगश्च लभ्यते सर्वजन्तुभिः ब्रह्म भूयप्रदं विप्र तपो नैव प्रकीर्तितम् अदो मां शाधितं योगिन् योगं शान्तिपदप्रदं संसाध्यकृतकृत्योहं भविष्यामि विशेषतः ब्रह्मणि तन्मया विप्रपथ्यन्ते ब्राह्मणा बुधैः अदो मां ब्राह्मणं पूर्णं कुरुष्व कृपया विभो दौम्यस्य वचनं श्रुत्वा हर्षयुक्तो महामुने दधी चिष्टं महाभागं जगाद हर्षसंयुधः दधी चिरुवाच ब्रह्मनानाविधं प्रोक्तं वेदादिषु विशेषतः गणेशं तेषु मुख्यं च ब्रह्मणाम् ब्रह्मदायकम् असं पुरातपोनिष्ठः क्षुपं राजशिरोमणिं स्पर्धयित्वा महाभागाभवं शैवो निरन्तरं क्षु पार्थमागतं विष्णुम् जित्वा योगपरायणः ब्रह्मणि सहजे विप्रसंस्थितोऽहं सुसौख्यते तत्र स्वाधीनभावं च दृष्ट्वा श्रान्तो भवं पुरा स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते ततोहं शान्तिप्राप्त्यर्थं शङ्करं चागमम् प्रभुं तम् प्रणम्य महादेवमस्तवम् विविधैस्तवैः ततो मामब्रवीक्षम्भुस्मयमान इदम् वजः किमर्थमागधो विप्रदधीते वदसाम्प्रतम् शिवस्य वचनम् श्रुत्वा हर्षयुक्तो महादराद पुनः प्रणम्य विश्वेश्यं कृताञ्जलि पुडोवदं दधीजिरुवाच नमस्ते शङ्करायैव शिवाय सुखवादिने ब्रह्मणे सहजायैव नेधिरूपप्रधारिणे स्वामिन्नव्यक्तगोषं तु ब्रह्मप्राप्त्यर्थमादराद कोरं सहजजं तत्र भावं दृष्ट्वादि विस्मितः स्वाधीनत्वं कथं तत्र सहजे ब्रह्मणि प्रभो स्वाधीनान्न परं ब्रह्म लभ्यते योगसेवया स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते स्वाधीनजं मोहम् दधदे सहजात्मकम् अहं शैव सदानाथम् त्वाम् जानामि परात्परम् अत त्वाम् शरणं यादशान्तियोगं वदस्व माम् श्रीशिव उवाच सम्यक्पृष्ठम् त्वया विप्र सर्वेभ्यः सुखदायकम् कथयामि महायोगं ब्रह्म तन्मयदाकरं स्वाधीनं त्रिविधं तादवरुदेन कदाचन तुरीयं सहजं ब्रह्म स्वाधीनं नात्र संशयः चतुर्नामत्र संयोगे स्वानन्दपरिकीर्तितः स्वसंवेद्येन योगेन लभ्यते योगिभिः परः पञ्चभिर्वर्जितो योगो ह्ययोग इति कथ्यते न तत्र ब्रह्मणां योगो जगतां जायते कदा तयोर्योगे महायोगिन् शान्तियोगप्रकीर्तितः पञ्चचित्तभवं भावं त्यक्त्वा शान्तिमवाप्स्यसि अहं गणेशरूपश्च भिन्नत्वं मेनवर्तते सदा संयोगदा कुत्रा योगदा भ्रान्तिदा भवेद पञ्च चित्तमयी बुद्धिसिद्धिर्भ्रान्तिकरी मदा मायेत्य स्वयं चिन्ता मणिः भविष्यसि यवमुक्त्वा स्वयं मह्यं ददौ शम्भुर्महामनुम् एकाक्षरं गणेशस्य तेनाहं भ्रामिदो वदं शैवोऽहं सततं नाथ किं मां वदसि मानद गणेशोपासनं केन मार्गेण तं भजाम्यहम् शिव उवाच गणासमूहरूपास्तांस्तद्रूपान् भावयाधुना सहजानां समायोगे गणोऽहं गणपस्य वै गणेशाकारभावेन गणः सर्वे विचारय तत्र किं व्यभिचारस्ते भवदे वदसाम्प्रतम् एवमुक्त्वा स्वयं शम्भुर्विरराम महामदे अहं संशयहीनस्त्वं प्रणम्य वनगो भवम् शम्भुना कथितं योगं साधयित्वा परात्परं योगशान्तियुदोऽहं तु जादशम्भुप्रसाददः सदा शान्तिसमयुक्तो भजामे द्विरदाननं गुरुरूपधरं शम्भुं गणपत्योऽहमादराद ये दत्ते कथितं सर्वं ब्रह्मभूयपरं परं त्वमपि गणराजं तं भजस्व भावसंयुधः एवमुक्त्वा ददौ तस्मै गणेशं षोडशाक्षरं मन्त्रं दधीजिह् े संयुध सकल सिद्धिद्नश्चो वाज योगो दधीचिस्त विशेष विदीजेगणनाथम दधी तम भजद भाव संयुद् तत्सदी दिश्रीमदाध्ये पुराणोपनिषदि मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्ण मलमत्म्ये दधीजिध्यौम्य संवादो नाम चुस्त्रिशोध्या ओ